भोरसि प्रवाह नो मन्ये रसि हौर्यवाहनः स्वात्र ओसि प्रचेतास्तुसो ओसि विश्ववे अपस्योरधिवस्पाम् सन्ध्योराधिमाज्जालीयाः तथा आमासि स्वज्योतिः समुद्रोभि विश्वव्यचाः अद्योऽस्त्येकपादहीरसि बुद्ध्याः सङ्ग्राविशालः परिषद्योऽसि पवमानः भोऽसि प्रतप्पा भृष्टोऽसि हं व्यसूद नः समूह्योऽसि विश्ववेदानातिवित्तस्य प्रतिष्ठा अग्नयसगरासगरास्थसगरेण नाम् नारोऽध्रेणानीतेना पादमा ग्नयष्टिवृतमा अग्नयो नमो वोऽस्तु मामाहिज्ञा ज्योतिरति विश्वरूपम् विश्वे एषाम् देवाना अग्ने समितृ स्वद्विसो मदनृभ्योऽषोऽभ्योऽन्यकृतेभ्यः कुरु यन्तावरुथव्यस्माहाणो अप्तु राज्यस्य वेतु स्वाहा अग्ने नय सुपथा राजे अस्मान् विश्वानि देववयुनानि विद्वान् युयोभस्मद्भ्यो राणमेणु भूयिष्ठान्ते तमा उक्तिम् अयन्नो अयम् नो अग्निर्वरे वस्तुणा वयम्भक्पुरयेतु प्रभृन्दन् अयम् वाजाञ्जयतु वाज पाताय शत्रुञ्जयतु जर्हृषानः स्वाहा गुरुष्णो विक्रामस्वो रक्षया आयमस्तृधी भृषङ्घृतयो नेपि भप्राहि जपाकिञ्चिरस्वाहा देव समितभेषते सोमस्तग् आरभन् एतत् वन्दे एव सोमदेवो देवा उपागाः इदमहम् मृष्यान् स्वहगायः पोषे एन निर्वरुणस्य पासा अन्मुच्ये अग्ने नो लतपास्ते तव तनोवन्मय्य भोवो देशा सात्वयिजाममतनोऽस्तय्य भो धिजज्ञे सामयी आयतन्नौ उव्रतपते व्रतान्यो मे दीक्षाम् दीक्षापतिलमभ्यस्तानुतपस्तपस्पतिः गुरुविष्णो विक्रमस्वरुक्षया आयनस्कृति घृतम् घृतयो निप्रायिव्यपातिरस्वाहा आगान्नाञ्जा कृपा आगाम् पर्वा परेभ्यः परो वरेभ्यः सन्त्वा आजुषामहे देववनस्पते देवयज्ञाली देवास्ता आ देवयज्ञाली जुषन्ताम् कृष्णा देत्वा पोषदेत्रायस्वस्पधीते मयि देवम् माले कीरन्तरिक्षम् माहि गृहे पृथिव्यासम् भावा अयर्गेहि वा स्वधीतिष्ठेति जानः प्रणिनाय महते सौभागाय अधस्पन्दे एव वनस्पते सतवल् चोगिरोहसहस्रवल्सा विभय गौरुहे मा ध्यायः अथ षष्ठोऽध्यायः ॐ देवस्य प्रापवितप्रासवेष्टि नाम बाहुभ्यान् तोष्णाहस्ताभ्याम् आददेनार्यसिदमहद्रक्षीमा अपि कृन्तामि यवोऽभि यवयास्मद्वेष अयवयारादीः यदे त्वान्तरिक्षायत्वात् चिव्ये त्वा सङ्घम् ताम् लोकाप्विषदानातृषदनमसि अग्रेणैराधि स्वावेशम् नेत्रेणामेतस्य वित्तादधित्वा स्थास्यति देवत्त्वा आ सविता मध्वा आनद्धृतपि मग्रे एनास्पृक्ष आन्तरिक्षम् मध्ये एनाप्रापृथिवीपारेण दृग्हीः चाते भावान्युस्मसिगमध्ये यत्र कावो भूरि शृङ्गा अयासाः अत्राहैतदुरुगायस्य विष्णाः परमम् पदमभा भारि ब्रह्मवनिस्ता क्षत्रवनीरायस्पोषवनि पर्योहामि ब्रह्मादृग्ह क्षत्रम् दृग्यगृगहप्रजान्तृगहा कृष्णोः कर्माणि पश्यत यतो व्रतानीपस्पशे इन्द्रस्य युज्यः सखा तद्विष्णाः परमम् पदग्यसदाः पश्यन्ति सूरयाः दिवे पचक्षुरातम् प्रतिवीरसि परित्रादिश्रो ययन्ताम् पहीमय्यजपानक्य राजो मनुष्याणाम् दिवस्तुनुरस्येशते ए पृथिव्या लोक आरण्यस्ते ए पशुः उपा वीरस्युपदेवा दैभिर्विशत्रा गो ऋषिजो वह्नितमान् ेव त्वष्टर्वसूरमहव्यातेजस्वदन्ताम् देवातीरमध्वम् बृहस्परे धारया वसूनि ऋतस्यता देवः विवाशे न मानुषः देवश्च तासवितप्रसभेश्विना बाहुभ्याम् कोष्णा हस्ता अभ्याम् अग्नि मा अभ्याम् जन्नियो द्रोषदेभ्य प्रोक्षाम्यनु त्वा मातामन्यतामनुषितानुभ्राता सगद्भ्योऽनुसखासयो अग्नीशो माद्राम् त्वाजुष्टम् प्रोक्षामि अपाम् तेरुदस्यापो देवी स गन्तु स्तञ्चित् सत्ते एव हविः सन्तेल प्राणो वातेन गच्छता समङ्गा आ नियजत्रैः संयजमान आशिषा घृतेना वसुन्त्रा आयेधा यजमाने प्रियम्भा आविष पुरोदन्तरिक्षात् सजुवद्देवेन वा देवेन अस्य हविषत्मना यजतमस्य तन्वा भवा पर्षो वर्षीयति यज्ञे यज्ञपतिन्धाः ताः आ देवेभ्यो देवेभ्य स्वाहा भूर्माकृता आपुः नमस्ता नर्वा प्रेहितस्य कुल्या उपधृतस्य पथ्या उप देवीरापश्रुद्धाव्येषु परिविष्टाधेनेषु सुपरिविष्टाभयम् दे परिवेष्टारो भूयास्मान् पादन्ते सुन्धामि प्राणन्ते सन्धामि चक्रुस्ते सन्धामि श्रोत्रम् ते सन्धामि नाहन्ते सन्धामि मेढन्ते सन्धामि पायन्ते ए सन्धामि चहित्राद्यस्ते सन्धामि Manastha apya ayatam, Vakta apya ayatam, Pranastha apya ayatam, Charkastha apya ayatam, Vashrotrandita apya ayatam. यत्ते रत्रो रैरलास्त्रीतम् तत्तःप्यायताम् तत्ते नित्या आयताम् तत्ते शुध्यतु समहोभ्यः ओषधेत्रायस्वस्वधीते वै न गहि गीः रक्षसाम् भागोति निरत्रज्ञ रक्षाः इदमहग्रैरक्षोभि तिष्ठामिदमहैरक्षो वा बाधे इदमहज्ञरक्षो धमन्तमो नयामि घृतेन द्या वा पृथिवी प्रोर्न्वा आथाम् वा यो वे स्तोकानाम् युषानो अग्निराज्यस्य वेतु स्वाहा स्वाहा आकृते उद्धना मातम् गच्छतम् स्वन्ते मनोपनसातम् प्राणः प्राणेन गच्छताम् तेणस्य दृष्ट्वा अश्रेणा तस्त्रा समारिलन् त्वाद्ध्राज्यैः भूष्मारगृह्या भूष्मणा व्यथिषत् प्रयोतम् देशाः घृतम् घृतपावानः पिबतवसान्वसा पावानः पिबता दिश प्रदिश आदिश अविदिश उद्दिश अदिग्रस्ताः ऐन्द्रप्राणो अङ्गे ए अङ्गे निधीयेत ऐन्द्रगोदान अङ्गे ए अङ्गे निधीये देवत्तट्टद्भूरिते सद् मे सुलक्ष्माय दिद्भ्यो लोकम् भवापि देवत्रायम् तमवशेषखायो नृत्वा मातापितरो मदन्तु समुद्रम् गच्छ स्वाहा देवग्य सवितारम् गच्छ स्वाहा अन्तरिक्षम् गच्छ स्वाहामित्रावरोणौ गच्छ स्वाहा अहो रात्रे गच्छस्वाहा छन्दाग् गच्छ स्वाहा याला पृथिवी गच्छ स्वाहा सोमम् गच्छ स्वाहा यिज्ञम् गच्छ स्वाहा नहो दिव्यम् गच्छ स्वाहा अभ्यम् वैरुस्वानरम् गच्छ स्वाहा मनो मेहाद्गच्छ दिवन्ते धूमो गच्छत् तन्तरिक्षम् ज्योतिः पृथिवीम्बत्मना पापो वौषधीयर्हि इति वरुणे दिशपा महेश्व वरुणनो मन्त्रा सुमित्रिया महापकोशधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान्देष्टियम् च भयम् दुष्पः इदमापप्रवाहतयः किञ्च दुरितम् वयी यद्वाहमाभिभुत्वोऽहयद्वा आशेपुता नृतम् हविष्मादिमा आपो अहविष्माविवासति हविष्मान् देवो अध्वरो हविष्मा अस्तसूर्याः अग्नेर्वोपन्नगृहस्य सदासि ज्ञाद्भागधेयीस्थमित्रावरुणयोद्भागधेयीयस्थमिष्टेशाम् देवानाम्भावधेयेस्था अमोर्या उभसूवर्येयाभिर्वासूर्यस्तः भा नो हिन्वन्त्वद्भरम् माधूर्यायत्वा यामि अमापो अभिरग्मतसमोषधीभिरोषधीः यमग्ने पृत्सुमत्यमपावाजेः श्रुयञ्जुनाः स्वयम् दाशस्वतीरिह देवस्य त्वारितुः सर्वेश्विना बाहुभ्याम् तूष्णा हस्ताभ्याम् आददे रावाधिगभीरमिममध्वरम् कृधीन्द्रायसुषुतमम् उत्तमेन पविनार्जस्वन्तम् मधुमन्तम् पयस्वन्तम् नित्याभ्या अस्थदेव श्रुतस्तत्पयतमा मनो मे मे तत्पयत मे तर्पयत मे तत्पयत मे तत्पयता आत्मान्मेतत्त्वयतप्रजान्ये एतत्त्वयत पशुवन्मे एतत्त्वयत गणान्मे एतत्त्वयत गणामे मा विकृषन् इन्द्रा आयत्त्वा पशुवते रुद्रवत इन्द्रा आयत्त्वा दिप्त्यवते इन्द्रायत्वाभिमाधिघ्ने श्येनायत्वा सोमभृथे ज्ञये यत्त्वा रायपोषदे यत्ते ए सोमधिविद्योतिर्यत्रेथिव्यां यसुरा अन्तरिक्षे पात्रा वृत्ततुरो राधो गोत्रा अमृतस्य पत्नीः का देवी यत्रेवक्त्रे मयि यज्ञन्ना यतो पाहूता सो मत्स्यतिपता मा भेन् मा संवित्था उवर्जन्धस्वधिषणे वीड्री जन् दधाता स्वाप्मा ह सो न सोमाः रागपागुलगधलात् त्वदन्यो मागवन्नस्तिमद्धितेन्द्रब्रवीमिते वचाः ॐ इति षष्ठोऽध्यायः अथ सप्तमोऽध्यायः ओ माचस्त्वत ये पवस्वृष्णा अश्व शुभ्याम् गभस्थिभूतः देवो देवेभ्यः पवस्व येषाम् भागोऽसि मधुमतीर्न इषकृधि यत्ते ए सोमादाःभ्यन्ना भजाग्तस्मै ते सोम सोमा स्वाहोर्मन्तरिक्षमन्वे विश्वाम् कृतोऽसि विश्वेभ्यदिन्द्रियेभ्यो दिव्येभ्यः पाशीवेभ्यः मानस्वाक्ष स्वाहा अस्पा स्वहमस्तूर्याया देवेभ्यस्तामरीचितेभ्यो देवाग् यस्मै देवे तत्सत्यमोपरिप्लुताभङ्गेन हातोऽसौ भट्प्राणायत्वा यानायत्वा उपयामगृहीतोऽस्यन्तर्यच्छमभवन् पाहि सोमम् पुरुषलायो वेषो ओ यजस्वा हन्तस्तेत्या वा आपृथिवी गाम् यन्तस्वभाम् विन्तरिक्षम् स योभिरवरैः परैश्चान्तर्ह्यामे स्वाहोर्वन्तरिक्षमन्वेभिस्वाङ्कृतोऽसि विश्वेभ्य इन्द्रियेभ्य अदिव्येभ्यः पाकीवेभ्यः मनस्त्वाष्टस्वाहास्त्वा स्व भवः सूर्याया देवेभ्यस्त्वा मरीचिरेभ्यः सुदानायस्तात् आवा आयो भूष सुति पा उपानः सहस्रम् ते नियुतो अविश्ववारा उपदे अन्धो मध्यमयामि यस्य देवदधिषे पो अर्वपेयम् वायवे अत्वा इन्द्रवायुजिने सुता उपप्रयो अभिरागतम् वो वा वृहन्ति उपयाम ग्रीहीतोऽसि वायवायिन्द्रवायभ्यान्तैषते जोनिस्तजोषो अभ्यान्त्वा अयम् वा अम्मित्रावरुणा सुतस्तो मारुता वृथा मे विह श्रोते हवम् उपयाम गृहीतो हि मित्रावरुणाभ्रान्त्वा प्रायाभयज्ञतो मदे महव्येन देवायवसेन गावाः सान् धेनुम् मित्रावरुणा युवन्नो विश्वाः धत्तवनप्रस्फुरन्तीम् एषते यो निर्नृतायुभ्रान्त्वा या वाङ्कसामदोभक्त्यस्पेनासो नृतावती तया आजिज्ञम् मे विक्षतम् उपयामग्रीहे गोस्यश्चिभ्यान्तैषते यो निर्माभ्येभ्यान्त्वा था आपूर्वथा आविश्वथे मथा ज्येष्ठता आलिम्बरिभिषदग् स्वर्वितम् प्रतीचीनम् वृजनम् दोहसे धुनीमासुञ्जयम् तमनुया सुबद्धसे उपजामग्रीहितोऽशिषण्डा आयत्वात् एष तेजो निर्निर्वीरताम् पाह्यपमृष्ट्रन्दो अदेवास्त्वा शुक्रपाः प्रणयन्तनाहृतासि सुरीरो अवीरान्त जनयम् परीह्यभिराजः कोषेण यजमानम् सञ्झमाणो दिवा पृथिव्या शुक्रः शुक्रशो ओतिषा निरत्तः शण्डः शुक्रस्या आधिष्ठा सा प्रथमा अग्रग्रेतिर्विश्ववादासप्रथमो वरुणो मित्रो अग्निः स प्रथमो बृहस्पतिश्चिकित्वाग्रस्तस्मा इन्द्रायसुतमायोवाहाम्पन्तु हो तामधोर्य यत्सुहृत यत् स्वाहा अयम् फेनश्चोदयश्चे गर्भाद्योजरायो रजसोऽविमाने इममपाद्यसङ्गमेशो वर्यस्य शिशुन्न विप्रा मतिभिहन्ति उपयामगृहीतोऽसि मत्कायत्वा मनोनयेषु हवानेषु दिक्मम् विमश्रच्छा वनुतो द्रवन्ता आयः सर्याभिस्तु विनृह्णो अस्या श्रीयेणीकादिसङ्गमस्तौ एत ते यो यः प्रजापाह्यपमृष्टो मत्त्वो देवास्तामन्ति सुप्रजा प्रजा प्रजनजन्परेत्यभिराजस्पोषेण यजमानम् सञ्जग्मानोऽधिपा पृथिव्या मन्थि मन्थिषो ओतिषानिलसोमत्वमन्थिन आधिष्ठानमसि अर्चिन्नस्य ते देवसोम सुवीर्यस्य राजस्पोषस्य दधिकालश्यामा प्रथमासव्यस्तृचर्विश्ववा रा स प्रथमो वरु नो मित्र अग्निः सप्रथमो बृहत्परिश्चिकृत्वाग्यस्तस्मा इन्द्रायसुतमायोहो तस्वाहा शृम्पन्तु रामधो यत्कृष्टै यत्सुभृतै यत्स्वाहा एवादो दे एवादो दिव्येका आदशस्थ पृथिव्या मध्येका आदशस्थ अप्सुक्षितो महिनैकादशस्थ ते दे मिन्द्रियेण पातु विष्णम् तम् पाहस्यभिसवनानि पाहि सोमः पवते सोम प्लवते सोवः पवते अस्मै ब्रह्माणे पवतेऽस्मै क्षत्राय पवतेऽस्मैते यजमानाय पवते इष भूर्जे पावते भोषदिभ्यः पवते ज्यावा आ पृथिवीभ्या अम् पवते सुभूताय पवते ब्रह्मवर्चसाय पवते इश्वेभ्यस्त्वा देवेभ्या एषते यो निर्विश्वेरभ्यस्त्वा देवेभ्याः उपयामग्रीहीतो तीन्द्रा यृहद्वा देवयस्वत उक्तायुवन् गृह्णामि यत्त इन्द्र बृहद्वयस्वस्मे यत्त्वा विष्णवे त्रिरधेयोनिरुक्थेभ्यस्ता देवा दे देवेभ्यस्ता देवायुवन् गृह्णामि यज्ञस्यायुषे विद्रावरोणाभ्यान्तादे वायुवम् गृह्णामि यज्ञस्यायुहे इन्द्रा आयत्वादेवायुवम् गृह्णामि यज्ञश्चायुष इन्द्राणिभ्या अन्तादे वायुवम् गृह्णामि यज्ञश्चायु इन्द्रा आयत्वादे वायिवम् गृह्णामि यज्ञस्यायुष इन्द्रावरुणाभ्रान्त्वादे वायिवम् गृह्णामि यज्ञस्यायुषे इन्द्रा बृहस्पतिभ्रान्त्वादे वायुवम् गृह्णामि यज्ञस्यायुष इन्द्राविष्णुभ्रान् त्वादे वायुवम् गृह्णामि यज्ञस्यायुषे रतिम् प्रथिव्या वैस्ता नरमृत आजातमग्निम् कविकन्दिन्तनामासन्नापात्रम् जनयन्त देवाः भुवयामगृहीतो सिद्ध्रुवो सिद्धुवक्षितद्ध्रुवानाम् ध्रुवतमोच्यूतानामच्युदक्षिप्तमः एष तेजो निर्दर्वैश्वानदायत्वा ध्रुवम् ध्रुवे न सा वाचा सोममवनयामि अथा आ न इन्द्र यिद्विशो सवत्मा स्वमानसस्करत् यस्ते रत्सस्खन्दति यस्ते अध्वर्योर्वापरी वायः पवित्रा सन्ते जुहोमि मनसा वशकृतग्रस्वाहा देवानामुक्रम नमसि उपयाम ग्रीहीतोऽसि मधवेपयाम ग्रीहीतोऽसि माधवायत्वा उपजामग्रीः कोऽसि शुक्रायत्वोपजामग्रीहितोऽसि शुचयेत्वा उपजामग्रीहितोऽसि न भसेत्त्वोपजामग्रीहितोऽसि न भश्चयत्वा उपजामग्रीहितोऽसिषेत्त्व उपजामग्रीहितोस्युजेत्त्वा उपजामग्रीहितोऽसि सहसेत्त्वोपजामग्रीहितोऽसि सहस्या आयत्वा उपजाम ग्रीहितोऽसि तपसेत्त्वोपजामग्रीहितोऽसि तपस्या आयत्वाम् उपजाम ग्रीहितोऽस्य ज्ञ हसस्पतये यत्त्वात् निन्दात्मी आगतव्य स्वतङ्गे अध्यर्णभो वरे अन्यम् सत्यपा आतन्धियेषु सामग्रीहेतोग्निध्यान्तैषते यो निध्यान्ता आधाय अग्नि शृणन्ते बर्हिरा आमिषत् येषामिन्द्रो जुवासखा उपयामग्रीहितोऽस्यग्नीन्द्राभ्या अन्तैषते योनीरग्नीन्द्राभ्या अन्त्वा वोमासस्तर्षणि धृतो विश्वे देवास आगता दाश्वाग्निशो दासुषस्तुतम् उपजाम गृहीतोऽसि विश्वेऽभ्यस्त्वा देवेभ्याजेहतेजोर्विश्वेऽभ्यस्त्वा देवेभ्या विश्वे ये देवासमागतशृणुतामाहिमग्हमम् हेदम् बर्हन्निषीदता उपयाम ग्रीहीतो सिविश्वेरद्भ्रस्त्वा देवेभ्यजेहतेजो निर्विश्वेरद्भ्रस्ता देवेभ्याः इन्द्रमरुत्तैह पा आहितो मयि यथा आसा जाते अपि वस्तुतस्य तव प्रणीते तव शूरसम्मन्नावि वा सन्ति कवयस्तु जिज्ञाः उपयाम गृहीतोसी इन्द्रा आयत्ता मरुत्लात एषते यो निरिन्द्रा आयत्ता मरुत्लते मरुत्तम् तम् वृषभम् वा आवृधानमक उपयाम ग्रीहीतोन्द्रा यत्त्वा मरुत्तात एष ते योनिरिन्द्रा यत्त्वा मरुत्ताते उपयाम ग्रीहीतोऽसि मरुताम् भोजसे त्वा सजोषा आ इन्द्रसगण मरुद्भिः सोमम् तिलवृक्रहासूलविद्वान् जहिषत् लुखेरपमृधो ओनु तस्पाथा भयन्त्रिणिहि विश्वतो ओ नः उपयामग्रीहीतोन्द्रा आयत्त्वा मरुत्वा तेषते यो निरिन्द्रा आयत्त्वा मरुत्स ते महा इन्द्रोऽनुवदाचर्दर्षनिप्रावुतविबर्हा अमिनः सह त्वा वृथे भीर्या आयोः सुत्सुरक्भत्रभिर्भूत् उपयामग्रीहीतोऽसि महेन्द्रायद्धेषो निर्महेन्द्रायत्वा महा इन्द्रो यवोचसा इवा मै सर्वत्सस्य मावृधे उपयाम ग्रीहितोऽसि महेन्द्राय त्वेषते यो निर्महेन्द्रायत्वा ओ इति सप्तमोऽध्यायः अथ ध्यायः ॐ कदाचनस्तरीरसिनेन्द्रसश्चसि <Sessus> दातुषे उपोपेन्नु माघवन् भूयिन्नुतेदानम् देवस्य पृच्छत आदित्येभ्यः पा कदाचनप्रयुच्छ शुभे निपा आसि जन्मानि ली आदित्य सपनन्द इन्द्रियमातस्था अमृतम् दिव्या आदित्येभ्यस्त्वा यज्ञो देवानाम् भृत्येतिषु नमादित्या सो भवता मृळयन्ताः आभोर्वाची एषुमचर्वा वृत्या त्या वारिभो वित्तसदादित्येभ्यः किल स्वा आदिषते एषोमपि सिम् मत्स्वा करस्मै न रोपचेदधातनयला आशीरब्दानम् पुमान् पुत्रो जायते विन्दते वस्वधा विश्वाहारपयेधते गृहे वाममद्य स वितर्वाममुष्वो दिवे जीवे वाममत्मभ्यग्सामी वामश्चक्षयश्च देव भूदे दया धिया वामभाज श्यामा उपयाम ग्रीहितोऽसि सा वित्रो असि च नो दाश्च नो मलीधेः जिम्वा जिज्ञम् जिन्वा जिज्ञपातिम्भका आय समित्रे विश्वेऽभ्यस्ता देवेभ्य एषते यो निर्विश्वेऽभ्यस्ता देवेभ्याः उपयाम गृहीतोऽसि बृहस्पतिसुतस्य ते देवसोमा इन्द्र इन्द्रियावतः पत्नीवतो ग्रहाणो विभ्रासम् अहम् परस्त्रादहमस्ताद्यदन्तरिक्षम् तदो मे पितासा अहम् सूर्यनुभयतो ददर्शाहम् देवानाम् परमम् गुहायत् अहमेवापत्नी रजो अदेवेन त्वष्ट्रा सोमम् विभ्रस्वाहा प्रजापातिर्वृषा आदिरेतो धारेतो मयि धेहि प्रजापाते कृष्णो आरेतो धसो अरेतो धामधिया उपजाम गृहीतोऽसि हरिरसि हार्यो जनो हरिभ्राङ्का हर्यो अर्धानास्थ सहसो मा इन्द्रा स्ते देवसोमा स्वशनिभक्षो यो भो सनीः तस्य तजिष्टयजुषस्तु तस्त्वमस्य सस्तोक्षस्योपाहूत उपाहूतस्य भक्षयामि स्वामि केशि नाहरीदृशानाकक्षप्रा अथा आनलिन्द्रोमपाहि रामुपस्मितिञ्चरा भयामग्रीहीतोसी इदायत्वा षोडशिन एषते यो निरिन्द्रायत्वा षोडशिने आदिवृत्तहम् रथैः युक्ता ते ब्रह्म ना हरीः अर्वाचीनते उपयाम्रीहितोऽसी इन्द्रा आयत्वा षोडसिन एषते योनिरिन्द्रा आयत्वा षोडसिने इन्द्रमिद्धली एवहतो प्रतिदृष्टतवसम् ऋषेणाञ्च स्तुतिरुपजिभ्यञ्च मानुषाणाम् भजामगीरोतीन्द्रा आयत्पाशोदशिन एषते योनिरिन्द्रायत्वा षोडशिने यस्मान्न जातः परो हन्यो अस्ति य आविवेश भुवनानि विश्वा प्रजावाजः प्रजया आसगरराणस्त्रीणि ज्योतीनिग्रहिषचते शशो ओढसी इन्द्रश्च सम्राट्वरुणश्च राजातौ ते भक्षम् चक्रतुरग्राजेतम् तयो रहमणो भक्षम् भक्षयामि वा देवीजूषाणा कोमस्य कृप्यतु सह प्राणेन स्वाहा अग्न आयोगिपवस आसु बोध्यमिषञ्चनः आरेमाधस्तदुत्सुनाम् जाम गृहीतो वच्च सहेषरग्नेवत्वा वच्च से अग्ने वक्षस्त्वम् वक्षस्वास्त्वम् देवेष्वसि मक्षस्वानहम् मानुष्येषु भूयाहम्